तथ पञ्चाशः सर्गः विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः अयोध्यामुन्मुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् आपृच्छे त्वाम् पुरुश्रेष्ठे काकुत्स्थपरिपालिते दैवतानि च यानि त्वाम् पालयन्त्या वसन्ति च निवृत्तवनवासस्त्वामनृणो जगतीपतेः पुनर्द्रक्ष्यामि मात्रा च पित्रा च सहसङ्गतः ततोरुचिरताम्राक्षो भुजमुद्यम्यदक्षिणम् अश्रुपूर्णमुखो दीनोऽब्रवीज्यानपदम् जनम् अनुक्रोशोदया चैव यथार्हं मयिवः कृतः चिरम् दुःखस्य पापीयोगम्यतामर्थसिद्धये तेऽभिवाद्यमहात्मानम् कृत्वा चापि प्रदक्षिणम् विलपंत न राघोरं यतिंश्च क्वचि क्वचि तथा विलपताघव अचक्षुर्षय प्रायाक क्षणता मुखे तथोध्यधनोपेताशीलना शिवान्कुतचिभयान रम्यांत्यूपस उद्याणोपेतापन्न सलिश तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् रक्षणीयान्नरेन्द्राणाम् ब्रह्म घोषाभिनादितान् रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् राज्यम् भोज्यम् ययो धृतिमताम् वरः तत्र त्रिपथगाम् दिव्याम् तदर्श राघवो गङ्गाम् रम्या ऋषिनिसेविताम् आश्रमैरपि दूरस्थैः श्रीमद्भिः समलङ्कृताम् कालेऽप्सरोभिर्हृष्टाभिः सेविताम् भो हताम् शिवाम् देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् नागन्धर्वपत्नीभिः सेविताम् सतताम् शिवाम् देवा क्रीडशताकीर्णाम् देवोद्यानयुताम् नदीम् देवार्थमाकाशगताम् विख्याताम् देवपद्मिनीम् जलाघाताट्टहासोऽग्राम् फेन निर्मलहासिनीम् क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् क्वचित् स्तिमिरगम्भीराम् क्वचिद्वेगसमाकुलाम् क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वलाम् देवसङ्घाप्लुतजलाम् निर्मलोत्पलसङ्कुलाम् क्वचिदाभोगपुलिनाम् क्वचिन्निर्मलवालुकाम् हंस सा सारस सङ्घुष्टाम् सा चक्रवाकोपशोभिताम् सदा मत्तैश्च विहगैरभिपन्नामनिन्दिताम् क्वचित्तीररुहैर्वृक्षैर्मालाभिरिवशोभिताम् क्वचित् फुल्लोत्पलच्छन्नाम् क्वचित् पद्मवनाकुलाम् क्वचित् कुमुदखण्डैश्च कुड्मलैरपशोभिताम् नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् यपेतमलसङ्घाताम् भूषणोत्तमैः फलपुष्पैः किसलयैर्वृताम् गुल्मैर्द्विजैस्तथा विष्णुपादच्युताम् दिव्यामपापापाम् पापनाशिनी शिंशुमारैश्च नक्रैश्च समन्वितां समन्विताम् शङ्करस्य जटाजूटाद्भ्रष्टाम् सागरतेजसा समुद्रमहिषीम् गङ्गाम् सारसक्रौञ्च नादिताम् आससाद महाबाहुः शृङ्गवेरपुरम् प्रति मूर्मिकलिलावर्तामन्ववेक्ष्य महारथः सुमन्त्रमब्रवीत् सूतमिहैवाद्यवसामहे अविदूरादयम् नद्या बहु पुष्पप्रवालवान् सुमहानिङ्गुदी वृक्षो सारथे प्रेक्षामि सरिताम् श्रेष्ठाम् शिवा देवमानवगन्धर्वमृगपन्नगपक्षिणा लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् उक्त्वा तमिङ्गुदि वृक्षम् तदोपयचतुर्हयैः रामोऽभियायतम् रम्यम् वृक्षमिक्ष्वाकुनन्दनः रथादवतरत्तस्मात्सभार्यः सः लक्ष्मणः सुमन्त्रोऽप्यवतीर्याथमोचयित्वा हयोत्तमान् वृक्षमोलगतम् राममुपतस्थे कृताञ्जलिः तत्र राजा गुहो नाम रामस्यात्मसमः सखा निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः सश्रुत्वा पुरुषव्याघ्रम् रामम् विषयमागतम् वृद्धैः परिवृतोमात्यैर्ज्ञातिभिश्चाप्युपागतः ततो निषादाधिपतिम् दृष्ट्वा दूरादुपस्थितम् सहसौमित्रिणा रामः समागच्छद्गुहेन सः तमार्तः सम्परिष्वद्यगुः राघवमब्रवीत् यथायोध्या तथेदम् ते राम किम् करवाणि ते महाबाहो कः ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् अर्घ्यम् चोपानयच्छीघ्रम् वाक्यम् चेदमुवाचः स्वागतम् ते महाबाहो तवेयमखिलामही वयम् प्रेष्या भवान् भर्ता साधुराज्यम् प्रसाधिनः भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् चैतदुपस्थितम् शयनानि च मुख्यानि वाजिनाम् खादनम् च ते प्रत्युवाचः अर्चिताश्चैव हृष्टाश्च भवता सर्वदा वयम् पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च भुजाभ्याम् साधुवृत्ताभ्याम् पीडयन् वाक्यमब्रवीत् दिष्ट्या त्वाम् गुह पश्यामि ह्यरोगम् सह बान्धवैः अपि ते कुशलम् राष्ट्रे मित्रेषु च वनेषु च यद्विदम् भवता किञ्चित् प्रीत्या समुपकल्पितम् सर्वं तदनुजानामि न वर्ते प्रतिग्रहे कुशचीराजिनधरम् फलमूलाशनम् च विद्धे प्रणिहितं धर्मे तापसं अश्वानाम् खादनेनाहमर्थी नान्येन केनचित् एतावता अत्र भवता भविष्यामि सुपूजितः एते हि दयिता राज्ञः पितुर्दशरथस्य मे एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः अश्वानाम् प्रतिपानम् च खादनम् चैव गुहस्तत्रैव पुरुषाम् स्त्वरितम् दीयतामिति ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमा जलमेवाददे भोज्यम् लक्ष्मणेनाहृतम् स्वयम् तस्य भूमौशयानस्य पादौ प्रक्षाल्य लक्ष्मणः सभार्यस्य ततोऽभ्येर्त्य तस्थौ वृक्षमुपाश्रितः गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् अन्बजाग्रत्ततो राममप्रमत्तो धनुर्धरः तथा शयानस्य ततो यशस्विनो मनस्विनो दाशरथेर्महात्मनः अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीता सुचिरेण शर्वरी इत्यार्षे आदिकाव्ये अयोध्याकाण्डे पञ्चाशः